क्षणेन तावद्वता क्षणेन तावद् भवता इत्युल्लपन् इत्युल्लपन् वल्लभवल्लव तल्लजेभ्यः इत्युल् उर्धवश इत्युल्लपन् वल्लव तल्लजेभ्यः त्वम् पूदना मातनुदा सुगन्धिं त्वम्बोदना मातनुधा सुगन्धिं त्वम्बोदना मातनुधा सुगन्धिं त्वम् पूतना मातनुत मातनुथा सुगन्धिं पदङ्गसङ्गस्य तावद्भवदामपि मदङ्गसङ्गस्य फलं न दूरे क्षणेन तावद् भवतासङ्गस्य मतङ्गसङ्गतङ्गसङ्गस्य फलं न दूरे क्षणेन तावद्भवतामपि स्यात् इत्युल्लवन् वल्लभल्लजेभ्यः त्वं पूरनामादनुदा सुगन्धिम् इत्युल्लभन् वल्लवल्लजेभ्यः सुगन्धिम् इत्युल्लभन् वल्लवम्बुदनामा तनुदा सुगन्धिम् इत्युल्लभन् वल्लव तल्लजेभ्यः त्वम्पूतना मा तनुता सुगन्धिम् मदङ्गसङ्गस्य बलं न दूरे चनेन तावद्भव इत्युल्लभन् वल्लभदल्लजेभ्यः पूदना मादनुदा सुगन्धिम् मदङ्गसङ्गस्य बलं न दूरे चनेन तावद्भवदाम वित्युल्लभन् वल्लभदल्लजेभ्यः त्वम् पूदना मादुनधा मादनुधा सुगन्धिम् मदङ्ग मदङ्गसङ्गस्य फलं न दूरे क्षणेन तावद् भवता इत्युल्लभन् वल्लभल्लजेभ्यः सम्पूतनाम तनुदा सुगन्धिसङ्गस्य फलं न दूरे क्षणेन तावद् भवतामपि स्यात् इत्युल्लपन् वल्लभल्लजेभ्यः त्वम्पूतनाम तनुता सुबन्धिं वन् टु त्रि च्यन चित्रं विसाच्य न चित्रं पिशाच्या न हतः कुमारः चित्रं बुरैव कदिशौरिणेदं चित्रं बुरैव कथिशौरिणेदम् पुरैव कदिशौरिणेदं चित्रं पुरैव कतिशौरिणेदम् इति प्रशंसन् किल इति प्रशंसन् गोपलोको इति भवन्मुखालोन्यमां क्षीत् हतः कुमारः चित्तवा कति शौरिणेदम् इति प्रशंसन् किल गोपलोको भवन्मुखालोकरसेनमाङ्क्षीत् चित्रम् पिशाद्यान हदकुमारः चित्रम्बुरैवा करिशौरिनेदम् विधिप्रशंसन् किल गोबलोगो भवन्मुखालोकरसेनमाक्षीद चित्रम् पिशाच्यानखत कुमारः चित्रम्बुरैवा कथिक्सौरिनेदम् इधि प्रसम् संगिल Gopaloko, Pavan Mughaloko, Senyamam Krita. Chitram Vishaachana, Chitram Vishaachana, Hatakumaraha, Chitram Bariva Kadisodineena, इधि प्रसंगिल Gopaloko, Pavan Mughaloko, Pavan Mughaloko, Senyamatir. Chitram Vishaachana, Hatakumaraha, चित्रं पुरैवा कतिशौ ऋणेदम् इति प्रशंसन् किल गोपलोको भवन् मुखालोक रसे न्यमाङ्क्षीत् वन् टु त्रि चित्रं ष्मी दिने दिने लक्ष्मीरक्षीण लक्ष्मी चोडि अद्वक्ष्मीरक्षीणकङ्गल्य माङ्गल्य शोव्रजोयं दक्षीण माङ्गल्य शदो व्रजोयम् दक्षीणमाङ्गल्य शदो व्रजोयं दक्षीणमाङ्गल्य शतो व्रजोयं भवन्निवासादयि वासुदेव भवन्निवासादयि वासुदेव भवन्निवासादयि वासुदेव भवन्निवासादयि वासुदेव प्रमोदसान्द्रः परितो विरेजे प्रमोदसान्द्रः परितो विरेजे प्रमोदसान्द्रः परितो विरेजे प्रमोदसान्द्रः परितो विरेजे दिने दिने ध प्रतिवृद्धलक्ष्मीरची न मङ्गल्य शतो दिने दिने प्रतिवृद्धलक्ष्मी रक्षिण माङ्गल्य शतो व्रजोयं दिने दिने त प्रतिवृद्धलक्ष्मी रक्षीणमाङ्गल्य शतो व्रजोयं पवन्निवासादयि वासुदेव प्रमोदसान्द्रः परितो विरेजे भवन्निवासादयि वासुदेव प्रमोदसान्द्रः परितो विरेजे भवन्निवासा दैवासुदेव प्रमोदसान्द्र परितो विरेजे भवन्निवासा दैवासुदेव प्रमोदसान्द्रः परितो विरेजे दिने दिने द प्रदिवृद्धलक्ष्मीरचीनमाङ्गुल्यशदो व्रजोऽयं भवन्निवासा दैवासुदेव प्रमोदसान्द्रः परितो विरेजे दिने दिने ध प्रतिवृद्ध रक्ष्मि रक्षी न माङ्गल्य सदोयं भवन्निवासा दयि वासुदेवा प्रमोदसान्द्र परिदो विरेजे दिने दिने दिवृद्ध रक्ष्मि न माङ्गल्य सदो भ्रजोय भवन्निवासा दयि वासुदेव प्रमोदसान्द्र परिदो विरेजे दिने दिने त प्रतिवृद्धलक्ष्मीरक्षीणमाङ्गल्यशतो व्रजोयम् भवन्निवासादैवासुदेव प्रमोदसान्द्रः फलितो विरेजे वन् टु त्रि दिने दिने वृद्धलक्ष्मीरक्षीणमाङ्गल्यशतो भवन् भवन्निवासादयवासुदेव प्रमोदसान्द्रः फलितु गृहेषु ते कोमलरूपः स गृहे सुते कोमलरूपः स गृहेषु ते कोमलरूपहास मृदक् कदा सङ्गुलिता कमन्यः कदा सङ्कुलिता कमन्यः मिदग् मृदक् कदा सङ्गुलितः कमन्यः था संुलिता कमन्यः वृत्तेषु कृत्येषु भवन् निरीक्षा वृत्तेषु कृत्येषु भवन् निरीक्षा वृत्तेषु कृत्येषु भवन् निरीक्षा वृत्तेषु कृत्येषु भवन्निरीक्षा समागदा प्रत्यहमत्यनन्दन् समाहदा प्रत्यहमत्यनन्दन् समागता प्रत्यहमत्यनन्दन् समागताः प्रत्यह प्रत्यहमन्त्यनन्दन् प्रत्यहमन्त्यनन्दन् मृदः कदा संकुलिता कमन्यः गृहेषु ते कोमलरूप स मृधक् कदा संकुलिता कमन्यः जिगे हृदे कोमलरूप कदा संकुलिता कमन्या गृहेषु ते कोमलरूपः स मिथः कथा संकुलिता कमन्यः कृत्येषु कृत्येषु भवन्निरीक्षा समागदा प्रत्यहमत्यनन्दन् वृत्तेषु कृत्येषु भवन्निरीक्षा समागता प्रत्यहमस्यनन्दन् वृत्तेषु कृत्येषु भवन्निरीक्षा समागता प्रत्यह मत्यनन्दन् गृहेषु ते कोमलरूपः समिधुलिता कमन्यः वृत्तेषु कृत्येषु भवन्निरीक्षा समागता प्रत्यह मत्यनन्दन् गृहेषु ते कोमलरूपः समिधस्कथा संकुलिता कमन्यः मृतेषु कृत्येषु भवन्निरीक्षा समागता प्रत्यहमत्यनन्दन् गृहेषु ते कोमलरूपः स मृदः कथा संकुलितकमन्यः सुतेषु कृत्येषु भवन्निरीच समागता प्रत्यहमत्यनन्दन् गृहेषु ते कोमलरूपहास मिथः कथा संकुलिता कमन्यः वृत्तेषु कृत्येषु भवन् निरीक्षा समागता प्रत्यहमत्यनन्दन् वन् टु त्रि गृहेषु तेषु कोमलरूपन् निरीक्षा समागता प्रत्यहमत्यनन्दन् अहो कुमारो मयि दत्तदृष्टिः अहो कुमारो मयि दत्तदृष्टिः अहो कुमारो मयि दत्तदृष्टिः अहो कुमारो मयि दत्तदृष्टिः स्मितं कृतं मां प्रदिवत्सकेन स्मितं कृतं मां प्रदिवत्सकेन स्मितं कृतं मां प्रतिवत्सकेन स्मितं र्यपाणि मादु मित्युपचार्यपाणिं होलि चलु एमा मिथ्युपचार्यपाणिं त्वयितं कृतं कृतं कृतं वधूभिः अहो कुमारो मयि दत्तदृष्टिः स्मितं कृतं मां प्रतिवंसकेन त्युपसार्यं त्वयिष किं किं न कृतं वधूभिः एषे हि मात्युपसार्यपा उपसार्यपाणिं किं किं वधूभिः एषे हि मां मित्युपचार्यपाणिं त्वयि न कृतं वधूभिः एषे हि मा मित्युपचार्यपाणिं किं न कृतं वधूभिः अहो कुमारो मयि दत्तदृष्टिः स्मितं कृतं मां प्रतिवत्सगेन कृतं अहो कुमारो मयि दत्तदृष्टिः स्मितं कृतं मां प्रतिसवत्सगेन एष्येहि मामित्युपसार्यपाणिं त्वयिश किं किं न कृतं अहो कुमारो मयि दत्तदृष्टिः स्मितं केन मां मृत्युपसपसार्यपाणि त्वयि स किं किं न कृतं न कृतं वधूभिः अहो कुमारो मयि दत्तदृष्टिः मितं कृतं मां प्रतिवत्सकेन येह्ये हि मा मृत्युपसार्यपाणिं त्वयि शकिं किं न कृतं वधूभिः वन् टु त्रि अहो कुमारो मायते दृष्टिहि स्निधं कृधं प्रतिवत्सि न सकेन येहि हिमादि स्वसादि पाणिम सिते सगितं वत्सम मधुभिः भवद्द्वस् स्वर्शने कौदुकेन भवद्भवस्पस्ने कौदुकेन भवद्द्व करात्करं गोपवधूजनेन माता अमृरोजमाला माता सरोजमाला नीतस्व माताम्ररोजमाला जालं बिलोलां मधुला मया सिः जालं बिलोलाम् ज्ञालं बिलोलां मधुला मलासि ओ या ओके अपोलम्ब Okay ्यालम्बिलोलम्बतुला मया करात्करं भवद्भवद्वद्भु स्पर्शन कौतुकेन करात्करं गो भवधूजनेन भवद्वपुस्पर्शन कौतुकेन करात्करं गोपवधूजनेन माताम्ररोजमाला व्यालम् बिलोलम्बुला मया सीः एमाताम्ररोजमाला व्यालं बिलोलं बोलं बतुला मयासि मादाम्ररोजमाला व्यालम् बिलोल यासि नीतस्त्वमाताम्रसरोजमाला व्यालम्बि लोलम्बतुला मया सीः भवद्पर्शन कौतुकेन कराल्करम् को भवधुजनेन निधस्त्व माताम्रसरोजमाला व्यालम्बि लोलम्बतुलामया सिः भवद्बु स्वस्य कौतुकेन करात्करं गो भवधूजनेन भवद्भू भवद्बु स्वन कौतुकेन करात्करं गो भवधूजनेन नेधस्त्वमात् माताम्र सरोजमाला व्यालं बिलोला यासीः भवद्वपुस्पर्शनकौतुकेन करात्करम् गोपवधूजनेन नीतस्त्वमाताम्रसरोजमाला व्यालम् विलोलम्बतुला मयासीः वन् टु त्रि भवद् जयमानकायन्दी <Nissan> स्तनमङ्ग <Nissan> <Nissan> <S Gyornaya> <depositancy> हसन्ति दशां यशोदा कथमां न शम यशोदा कदमाम् न भेजे धजाय यशोदा कदमाम् न भेजे कदमा न पोटिरक என்னோடதுல ஆமா என்ன வாக்கும் அது कदमा न कद यशोदा कदमाम् माम कदमाम् न भेजे कदमा न भेजे ओके என்னோடதுல मान न भेजे போட்டுருக்கு मां निर्तिमां सतादृशपाहि हरे गदान् मां सतादृशपाहि हरे गदान् मां सतादृश पाहि हरे गदान् माम्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 स्तनमङ्क गं त्वां विलोकयन्ति वदनं हसन्ति दशां यशोदाशोदारे यशोदकदमां न भेजे सतादृश पाहि हरे गदान् माम् दशा यशोदा कदा हरे निपायन्ति दशां यशोदा कदा हरे निपायन्ति स्तनमङ्गगं त्वां विलोगयन्ति वदनं हसन्ति दशां यशोदा कदां न भेजे सदा दृशः पाहि हरे निधात्माभायन्ति स्तनमङ्ग गं त्वां विलोकयन्ति वदनं हसन्ति दशा यशोदा कदा मां न भेजे तथा दृशपाहि हरे गदात्मां निपायन्ति स्तनमङ्ग गं त्वां विलोकयन्ति वदनं हसन्ति दशां यशोदा कदमाम् नभेजे भेजे सतादृश पाहि हरे गदान् माम् वन् टु त्रि निपायम् हसन्ति समामृदीत निष् निरीक्ष्य भयविस्मयान्धारीरा <laughs> मुच्चलन्नुच्चतरो हि धूमः शङ्कामदागरवः किमेषः किं चान्दनो गौल्गुलवोत्थवेति मतङ्गशङ्गस्य इत्युल्लभन् वल्लवल्लजेभ्यः पूतनामादुनधा सुगन्धिम् అల్లలాం అంజి అంజి అంజి దనే ఆద్య అవరుక గుడిని చెల్లనామ అపో ప్రాక్టీస్ కడిగే చిత్తం రిజాయ చిత్త్య జనహద సుమరః చిక్రం పుదేవ భాగది సౌరినేద ఇతి ప్రసంతం శిల గో బలోగ భవనముగా లోగవతే నియమాంతి दिने दिने तः प्रतिवृद्धलक्ष्मीरक्षीणमाङ्गल्यशसोव्रजोऽयम् भवन्निवासादैवासुदेव प्रमोदसान्द्रः परितो विरेजेतुसे कोमलरूपहासम् <laughs> गृहेषु ते कोमलरूपसमिधत्कृता सङ्कुलितः कमन्यः मृतेषु कृत्येषु भवन्निरीक्षा समागता प्रत्यहमत्यनन्दन् अहो कुमारो मयि दत्तदृष्टिः मृदं कृतं वा परिवर्तकेन के हे किमा पिबाजपाणि च किङ्किं न कृतं वधूभिः भवद्वपुस्पर्शनकौतुकेन करात्करम् गोपवधूजनेन नित्तस्त्वमाताम्रसरोजमाला व्यालम् विलोलम्बतुलामयासीः निपाययन्ती सनमङ्गगम् त्वाम् विलोगयन्ती वदनम् हसन्ति दशाम् यशोदा कदमाम् न भेजे स तादृशः पागि हरे गदान् माम् और का गुरुम फर्स्ट पद्मा मामी लेंदो तोडंगलाम आदि अपो इनियोर वर्स कड़क कंट्रैक्ट मैम मामी सर चल रहे वैजय सर सौदी वजो निजम्य समा वजन ध्वनि बीद केदाग निष्पिष्ट निप्ते तनु निरीक कञ्जिपदातम चरणा कतत्वाम निशम्य गोपी वचनादुदन्तम् सर्वेऽपि गोपा भयविस्मयान्धाः त्वत्पातितम् घोरपिशाच देहम् देहुर्विदूरेऽथ कुठारकृत्तम् त्वत्पीडभूदस्तनतच्छरीरा <laughs> समुच्छलनुच्छतरोहि धूमः ङ्गस्य फलं न दूरे क्षणेन तावद् भवदामपि स्यात् तनु, तनु, सुगन्धि चित्रं पिशाचानहतः कुमारः चित्रं पुरैवा कतिशौरिणेदम् इति प्रशंसन् किल गोपलोको भवन्मुखालोकरसे लक्ष्मीरक्षी नूतकदान् निश्च समागत प्रत्यनन्दन् अहो कुमारो मयु दत्तदृष्टिः स्वितं कृतं मा प्रतिवत्सकेन एह्येहि माम् मित्युपसार्यपाणिम् त्वयीश किम् किम् न कृतम् वधूभिः भवद्पर्शनकौतुकेन करात्करं गोबवधूजनेन एदस्त्वमात्ताम्रमसरोजमाला व्यालिम् व्यालम् विलोलम् वतुलाय मया निभायन्दे स्तनमङ्ग गन्त्वा त्रिलोन्दे वदनं कथन् दे दशा यचोद कद मां न भेदे तथा दुष्टमा सर्वतो गोन्दरामसङ्गे अ <laughs> <laughs> <laughs> <laughs> <laughs>